मार्कण्डेयपुराणम् अध्यायम् एट्टि एयिट् देवीमाहात्म्यम् अध्यायम् एय् ऋषिरुवाच चण्डे च निहदे दैत्ये मुण्डे च विनिपादिते बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः तदः प्रतापवान् उद्योगं सर्वसैन्यानां दैत्यानामादिदेशः अद्य सर्वबलैर्दैत्या षडशीतिरुदायुधाः कम्बूनां चतुरशीतिर्निर्यान्दुःस्वबलैर्वृताः कोटिवीर्याणि पञ्चाशदसुराणां कुलानि वै शतकुला धौम्रण निग्छन मज्ञया काल का दौर्हृदा मौर्या काल के तथा सुराय सज्जा निर्यां आज्ञया मम इज्ञाप्यापुंभो भैरवशासन निर्जगा मैन्यस्रैर्बु आयांद चिका दृष्ट तत्सैन्यमिभ ज्यास्वपूरयास धरण गगना सींहो महानादमीव कृतवा नृप खण्डास्वनेन तन्नादमम्बिका चाप्य बृंह यद धनुर्जासिंहखण्डानां नादापूरि ददिङ्मुखा निनादैर्भीषणैकाली जिज्ञे विस्तारिदानना तं निनादमुपश्रुत्य दैत्यसैन्यैश्च सरोषैः परिवारिताः भवायामरसिंहानामधिवीर्यबलान्विताः ब्रह्मेश गुहविष्णूनां तथेन्द्रस्य च शक्तयः शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्चण्डिकां यस्य देवस्य यद्रूपं यथाभूषणवाहनम् तद्वदेव हि तच्छक्तिरसुरान् योद्धुमाययौ हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः आयादा ब्रह्मणशक्तिर्ब्रह्माणी साभिधीयते माहेश्वरी वृषारूढा त्रिशूलवरधारिणी महाहिवलया प्राप्ता चन्द्रलेखाविभूषणा कौमारी शक्ति हताज मयूरवरवाहना योद्धुम्याय दैत्या वैष्णवी गरुडो गुहू तथा वैष्णववीशक्तिर्गर बरी संस्थित शंकचक्रगदस्ताभ्युपये वाकमदुलम रूपम या बिभ्रदी हरे शक्तिस्थाप्याययौ तत्र वाराहीं बिभ्रदी तनुं नारसिंही नृसिंहस्य बिभ्रदी सदृशं वपुः प्राप्ता तत्र षडाक्षेपक्षिप्रनक्षत्रसंहतिः वज्रहस्ता तथैवैन्द्री गजराजोपरिस्थिता प्राप्ता सहस्रनयना यथा शक्रस्तथैव सा ततः परिवृतस्ताभिरीशानो देवशक्रिभिः हन्यन्तामसुरा शीघ्रं मम प्रीत्या चण्डिका ततो देवो शरीरा चण्डिका शक्तिरत्युग्रा शिवा सा चाह धूम्रजटिलमीशानमपराजिता दूदत्वं गच्छ भगवन्पार्श्वं शुम्भनिशुम्भयोः ब्रूहि शुम्भं निशुम्भं च दानवावधिगर्वितौ ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः त्रैलोक्यमिन्द्रो लभदां देवासन्धुहविर्भुजः यूयं प्रयादपादालं यदि जीवितुमिच्छथ बलावले पादधचेद्भवन्तो युद्धकाङ्क्षिणः तदा गच्छद तृप्यन्तु मचिवा पिशितेन वः यतो नियुक्तो दौत्येन तया देव्या शिव शिव दूदीधि लोकेऽस्मिंस्तदत्सा ख्यातिमागदा तेऽभि श्रुत्वा वचो देव्या शर्वाख्यादं महासुराः अमर्षा पूरिता जग्मुर्यत्र कात्यायनी स्थिता ततः प्रथममेवाग्रे शरशक्त्यर्ष्टिवृष्टिभिः ववर्षुरुद्धदामर्षास्तां देवी ममरारयः सा च तान् प्रकृतान् बाणान् शूलशक्तिपरश्वधान् चिच्छेद लीलयाध्मादधनुर्मोक्तैर्महेषुभिः तस्याग्रतस्तथाकाली शूलपाद विदारिदान् खड्वाङ्गबोधितांश्चारीन् कुर्वती व्यचरत्तदार् कमण्डलुजलाक्षेप हदवीर्यान् हदौ जसः ब्रह्माणि चागरोत्रून्येन येन स्म धावधि माहेश्वरी त्रिशूलेन तथा चक्रेन वैष्णवी दैत्यान् जघानकौमारी तथा शक्त्याधिकोपना ऐन्द्रीकुलिशपादेन शदशो दैत्यदानवाः पे दुर्विदारिताः पृथ्व्यां रुधिरौखप्रवर्षिणः तुण्डप्रकारविध्वंस्तादंष्ट्राग्रक्षदवक्षसः वाराकमौत्यापतंक्रेण च विदारिताः नखैर्विदारितांश्चान्यान् भक्षयन्तीमहासुरान् नरसिंही चचाराजौ नादापूर्णदिगन्धरा चण्डाट्टहासैरसुरा शिवदूत्यभिदूषिदाः स्वेधुः पृथिव्यां पतितां तांश्च खादाधसा तदा इति मातृगणं क्रुद्धं मर्दयन्तं महासुरान् दृष्ट्वाभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः पलायनपरान् दृष्ट्वा दैत्यान् मातृगणार्दितान् योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः रक्तबिन्दुर्यधा भूमौ पतत्यस्य शरीरतः समुत्पदति मेदिन्यां तत्प्रमाणो महासुरः युयुधेशगदापाणिरिन्द्रशक्त्या महासुरः ततश्चैन्द्रिस्वज्रेण रक्तबीजमदाडयद कुलिसेनाहदस्याशु बहुशुस्रावशोनिदं समुत्तस्तुस्ततो योद्धास्तद्रूपास्तत्पराक्रमाः यावन्धः पतितास्तस्य शरीराद्रक्तबिन्दवः तावन्धः पुरुषा जातास्तद्वीर्यबलविक्रमाः ते चापि युधुस्तत्र पुरुषारक्तसम्भवाः समं माधृभिरत्युग्रशस्त्रपादादिभीषणं पुनश्च वज्रपादेनक्षतमस्य शिरो यदा ववाहरक्तं पुरुषास्तदो जातासहस्रशः वैष्णवीसमें चैन चक्रेना चखान गदया ताडया मासा रुधिरस्राव तमसुरेन्ष्णवी चक्रभिन्न सेहस्रश जगद्व्या तत्माहासुर शक्त्या जखानकौम वाराहज तथा सिना माहेश्वरी त्रिशूलेन रक्तबीजं महासुरं स चापि कदया दैत्यस्सर्वा देवाहनपृथक् माधक्कोपसमाविष्टो रक्तबीजो महासुरः तस्या कदस्य बहुधा पपादयो वै रक्तौकस्तेन सञ्चदशोऽसुराः तैश्च्यासुरासृक्सम्भूतैरसुरैः सकलं जगद व्याप्तमासीत्ततो देवा भयमा जग्मुरुत्तमं तान् विषण्णान् सुरान् दृष्ट्वा चण्डिकाप्राह सत्वरा उवाचकालीं चामुण्डे विस्तीर्णं वदनं कुरु मच्छस्त्र पादसम्भूतान् रक्तबिन्दून् महासुरान् रक्तबिन्दोः प्रतीच्छत्वं वक्त्रेणानेन वेगिनां भक्षयन्ति चरणे तदुत्पन्नान् महासुरान् एव शक्षयं दैत्यः क्षीणरक्तो गमिष्यति भक्ष्यमाणा त्वया चोग्रा न चोत्पत्स्यन्ति चापरे ऋषिरुवाच इत्युक्त्वा तां देवी शूलेनाभिजखानं मुखेन कालीजगृहे रक्तबीजस्य शोणितं ततो सा वा गदयात्तत्र चण्डिकां न चास्या वेदनां चक्रे गदा पादोऽल्पिकामपि तस्याः कदस्य देहा तु बहुशुश्रावशोनिदं यतस्तदस्वक्त्रेण चामुण्डा सम्प्रतिच्छति मुखे समुद्गदा ये स्या रक्तन्महासुराः तांश्च कादाधचामुण्डा पपौ तस्य च शोणितं देवीशूलेन चक्रेण बाणैरसिभिरष्टिभिः जखानरक्तबीजं तं चामुण्डापि दशोणितम् सपपादमहीपृष्ठे शस्त्रसंखथितो हतः निरक्तश्च महीपालरक्तबीजो महासुरः ततस्ते हर्षमदुलमवापुस्त्रिदशा नृप तेषां मातृगणो जातो ननर्ताश्रृङ्मदोद्धतः इति ओ